नारायणीयं दशकं 76 मीटर मीटर् मन्दाक्रान्ता गत्वा सान्दीपनिमद मात्रै दुःषष्टिमात्रैरहोभिस्सर्वज्ञस्त्वं सह सहमुसलिना सर्वविद्यां गृहीत्वा पुत्रं नष्टं यमनिलयनादाहृदं दक्षिणार्थम् दत्त्वा तस्मै निजभुरमगानादयन् पाञ्जन्यम् स्मृत्वा स्मृत्वा पशुपसुदृश्यः प्रेम भारप्रणुन्ना कारुण्येन त्वमपि विवश्य प्राहिणोरुद्धवन्तं किंजामुष्मै परमसुहृदे भक्तवर्यायतासाम् भक्त्युद्रेकं सकलभुवने दुर्लभं दर्शयिष्यन् त्वन्माहात्म्यप्रथिमपि प्रधिमपिशुनं गोकुलं प्राप्यसायं। सायं त्वद्वार्ताभिर्बहुसरमया मा स मणिमयरथम् शंकिता पंकजाख्युवा प्राप्तुचर त्यक्तिया दृष्टि चैनमदुपम सवेश भूषाभिराम स्मृत्वा स्मृत् तव विलसीताुच्च कैस्ता कथमपि पुनर्गद्गदाम् वाचमूजुः सौजन्यादीन्निजपरभिधामप्यलम् विस्मरन्त्यः श्रीमन् किम् त्वम् पितृजनकृते प्रेषितो निर्दये न क्वा सौ पान्तो नगरसुदृशाम् आश्लेषाणामृदवपुषो हन्तदे चुम्बनानामुन्मादानां कुहकवचसां विस्मरेत्कान्तका वा रासक्रीडालुलितललितं विश्वधत्केशपाश्यं मन्दोद्भिन्नश्रमजलकर्णं लोभनीयं त्वदङ्गम् कारुण्याब्धे सकृदपि समालिङ्गिदुं दर्शये दिप्रेमोन्मादाद्भुवन मदनत्वत्प्रियास्त्वां विलयेपुः एवं प्रायैर्विवशवचनैराकुला गोपी कास्तास्त्वत्सन्देशैः प्रकृतिमनयत्सोध विज्ञानगर्भैः भूयस्ताभिर्मुदितमदिभिस्त्वन्मयीभिर्वधूभिस्तत्तत्वार्ता सरसमनयकानि चिद्वासराणि त्वत्प्रोद्गानैः सहिदमनिष्यं सर्वदो गेहकृत्यं त्वद्वार्तैव प्रसरदिमिधः सैव चोत्स्वापदापाः चेष्टा प्रायस्त्वदनुकृदयस्त्वन्मयम् सर्वमेवम् दृष्ट्वा तत्रव्यमुहदधिकम् विस्मया दुद्धवोऽयम् प्राधाया मे प्रियतममिदं मत्प्रियैवम् ब्रवीदि त्वम् किम् कलयसि सखे मानि मत्प्रियेव इत्याद्येव प्रवददि सखि त्वत्प्रियो निर्जनेमामिद्धं वादैरमयधयम् त्वत्प्रिया मुत्पलाक्षीम् येष्यामिद्रागनुपगमनं केवलम् कार्यभाराद्विश्वे विस्मरणदृढदा सम्भवान् मास्तु खेदः ब्रह्मानन्दे मिलति न चिरात्सङ्गमो वा वियोगस्तुल्यो वा स्यादिति तव सोकरो निर्व्यथास्ताः एवम् भक्तिः नेक्षिदा न श्रुदा वा किं शास्त्रौखैक्यमिह तपसा गोपिकाभ्यो नमोऽस्तु इत्यानन्दाकुलमुपगतं गोकुलादुधवं तं दृष्ट्वा हृष्टो गुरुपुरपदे पाहि मामा मयौकाद सर्वत्र गोविन्दनाम सङ्गीर्तनं गोविन्द गोविन्द